श्रीमद्भागवतमहापुराणं चतुर्थस्कन्धः अथ पञ्चदशोऽध्यायः नैत्रे उवाच अस्य तस्य पुनर्विप्रैरपुत्रस्य महीपतेः बाहुभ्यां मध्यमानाभ्यां मिथुनं समुपद्यत तद्दृष्ट्वा मिथुनं जातं ऋषयो ब्रह्मवादिनः ऊचो परमसन्तुष्टा विदित्वा भगवत्कलाम् विषय उचुः विशेष विष्णोर्भगवत्कला भुवनपालिनी इयं च लक्ष्म्या सम्भूति पुरुषस्यानपायिने अयम् तु प्रथमो राज्ञां पुमान् प्रथिता यशः पृथुर्नाम महाराजो भविष्यते पृथुस्रवाः इयं च देवी गुणभूषणभूषणाम् भूशन अर्जुर्नामवरारोहा पृथिमेवावरुन्धती एष साक्षाद्धरीरंसो जातो लोकरिरक्षया इयं च तत्परा हि श्रीरन् श्री अनुञ्जज्ञेन पायिनी मैत्रिवाच प्रशंसन्ति स्मृतं विप्रा गन्धर्वप्रवराजगुः मोचो सुमनोधारा सिद्धा निद्यन्ते स्वश्रियः शङ्कतुर्यमृदङ्गाद्या नेदुर्दुन्दुवयो तत्र सर्व उपाजग्मुर्देवसी पितॄणां गणाः ब्रह्मा जगद्गुरुर्दैवै सहासिद्ध सुरेश्वरैः लैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः पादयोरविन्द्रविन्दं च तं वैमेणे हरिकलां यस्याप्रतिहतं चक्रम् अंस स परमेश्वनः तस्याभिषेक आरब्धो ब्राह्मणैर्ब्रह्मवादिभिः नाभिषेचनिकान्यस्मै आज्रह्रू सर्वतो जनाः सरे समुद्रागिजोर्नागागावखगामृगाः दोचिति सर्वभूतानि समाजहुरुपायनम् सोऽभिषिक्तो महाराज कृतया पत्न्यार्चिसालङ्कृतया विरेजेऽग्नेरिवापरः तस्मै जहारधनदो हैमं वीरवराशनं वरुणसलिरस्रावम् आतपत्रं शशिप्रभम् वायुश्च बालव्यजने धर्मकीर्तिमयिंसजम् इन्द्रकिरीटमुत्कृष्टं दण्डं संयमनं यमः ब्रह्मा ब्रह्ममयं वर्म भारतीहारमुदमं हरिसुदर्शनं चक्रं तत्पत्न्यव्याहतां श्रियं दशचन्द्रमशिं रुद्रशतचन्द्रं तथाम्बिका सोमोऽमृतमया न स्वान् त्वष्टारूपाश्रयं रथम् अग्निराजगवं चापं सूर्यो रश्मिमया निशुन् भूपादुके योगमय्यौद्यौ पुष्पावलीमन्वहं नाट्यं सुगीतं वादित्र्यम् अंतरधानं च खेचराः ऋषयस्याशिषशक्त्या समुद्रशङ्खमात्मजम् सिन्धवपर्वता नद्यो रथविरम्बीथे महात्मनः सुतोऽथमागतो वन्दे तं तोतोमुपतस्थिरे तावन्कांस्तानभिप्रेत्य पृथिर्वैन्यप्रतापुनवान् मेघनिर्हादया वाचा प्रहसन्निधम् अब्रवीं तिर्वाच भो सूत हेमागृतसौम्यवन्दिं लोकेऽधुना स्पश्च गुणस्य मेषात् किमाश्रयो मेस्तव एष योज्यतां नामय्यभूवन् वितथा गिरो वः तस्मात्परोक्षे स्मदुपस्रुतान्यलं करिष्यत स्रोतमपि च वाचः सद्युत्तमश्लोकगुणानुवादे जुगुप्सितं न शयन्ति सव्याः महद्गुणानात्मनि कर्तुमीश कावकैः सावयते सतोऽपि तेषा भविष्यन्यते विप्रलब्धो जनाभहासं कुमतेन वेद प्रभो ह्यात्मनः श्रोतुं श्रोत्रं च गुप्सन्त्यपि विसृताः श्रीमन्तपरमोदाराः पौरुषं विगर्हितं वयं तु सदाद्यापि वरीमस्म्भी कर्मभिः कथमात्मानं गायिष्याम बालवत इति श्रीमद्भागवते महापुराणे प्रभ्यां चैतायां चतुर्गन्धे चतुर्चरिते पञ्चदशोऽध्यायः